रणक्षुद्रघण्टानि नाराभिरामम् चलत्ताण्डवो दण्डवात्पताणम् ससत्तुम् विलामो वारुव्यालहारम् गणाधीशमीशानसूरुम् दमीरे ं सलीणालयोलासिवत्रम् स्फुरत्तुण्डदण्डोलदबीजपूर गलद्भसौगन् जलोलायि माल गणाधीशमीशाय ैकदन्तम् गणाधीशमीशानीडे विचित्रस्फुरद्रत्नमाला किरीटम् किरीटोलसचन्द्ररेखा विभूषम् विभूषैकभूषम् भवध्वम् सहेतुम् गणाधीशमीशानसूरुमीडे ी दृश्य मूलोत्सद्भूलता विभ्रमव्राजदक्ष मरुसुन्दरी चामरे सेव्यमान गणाधीशमीशार सोन्दमेरालोल ङ्गाक्षितारम् कृपा कोमलोदारलीलावतारं कलाबिन्दुगं गीयते योगिवर्यै गडाधीशमीशानसूनुक्षरं निर्मलं निर्विकल्प गुणातीतमानन्दमाकारशून्य परं परमोङ्क्ता पुराणम तमीडे चिरानंदसा शांतायूभ्यम नमो विश्वक्रे जे जूभ्यं नमो नंदलीलाय कल्यसे नमो विश्वीज प्रसिदेश सूर स्तवम् प्रातरुत्थाय भग्या पडेध्यस्तुमत्योल्लभेत् सर्वकामाद् गणेशप्रसादेन सिध्यन्ति वाचो गणेशे विभौ दुर्लभम् किम् प्रसन्ने गणेशे विभो दुर्लभम् किम् प्रसन्ने गणेशे विभौ दुर्लभम् किम् प्रसन्ने गणेशे विभौ दुर्लभम् किम् प्रसन्ने